मुद्दुराण्डम टू एककदर अदशापन श्रीगणेशा नम मुद्गल उवाच गणेश मनसा ध्यां मनो दधे आद तर विधेदेद विद्या सा विस्मृता सा पञ्चथा ततो भिन्ना स्वयं जाता प्रजापते तां दृष्ट्वा विस्मितो ब्रह्मा मनसा दुःखितो भवत अविद्याभ्रान्तिरूपात्र ह्यनन्दविभवात्मिका रक्त कृष्णा तथा तदाश्वेदा नानाश्चर्यमयी बभौ त्रिविधानां प्रसूतिश्च जगत्रय विमोहिनी तया विमोहिदं विश्वं भ्रान्तियुक्तं बभूवः तमोमोहो महामोहशृणु दक्षमहाद्भुदं तामिस्रश्चान्ततामिस्र पञ्चधा जगदिस्थिदा तमोज्ञानस्वरूपं यत्तेन संच्छादितं जगद देहस्वार्थसमायुक्तं बभूवभ्रान्तमानः सं मोहः स कामनायुक्तं कर्म नानां विनिर्म तेन विश्वं शरीरस्य कुरुते कर्म भोगतं महामोहेन संसृष्टं विकर्म विविधं प्रभो तेन देहस्य भोगार्थं पापानि कुरुते नरः तामिश्रेण बलं सृष्टं रोगदारिद्र्यकादिकं तेनाधिव्याधिसंयुक्तमभूद्विश्वं प्रपीडितम् अन्धतामिश्रतो दक्षनरको यादनात्मकः तेन स्वकर्मदोषेण यादनां बुभुजे जगद येषा विद्यागणेशानां स्मृत्वा स्वार्थपराभवद तदो ब्रह्मा विनिद्यैनां पुनः स्रष्टुमनोदधे ततस्तस्य शरीरात् चतुःपुत्राः प्रजज्ञिरे शनकश्च महायोगी तथान्यश्च सनन्तनः सनातनोऽपि च सनत्कुमारश्च चतुर्थकः तेषाम् माधृस्वरूपेण विद्याज्ञानात्मिका बभौ बोधरूपां निराकाराम् साक्षादात्ममयीम् परां तां दृष्ट्वा पर्ष योक्तोऽभूद्ब्रह्मा सर्वपितामहः सहजस्य धरस्तत्र सनकस्सम्बभौ सुतः समयोगधरो दक्षप्रदापीच च स नन्दनः ज्ञानयोगमयोगी सनातन युधि स्मृतः कर्मयोगस्वरूपस्सनत्कुमारस्सभौ तान् दृष्ट्वा हर्षसंयुक्त उवाच जगदीश्वरः स्मृत्वा सृजद संसृष्टिं गणेशं तै कृतं तथा नानाविधं योगमार्गं ससृजुस्ते महौजसः तं दृष्ट्वा नाभ्य नन्दत्सब्रह्म प्रोवाच तान्पुनः अलम योगमयीं सृष्टिं मा कुरुध्वं महौजसः तदेदिते ते महाभागा ऊचुस्तं संस्थिदा बभुः ब्रह्माज्ञानमयीं सृष्टिं तदो दृष्ट्वा चुकोपः कोषात्तस्य ललाडाद्वै शम्भुपुत्रो बभूवः तुष्टावतेजसादीप्तं पञ्चवक्त्रधरं प्रभुम् त्रिनेत्रम् दशबाकुन्तम् चन्द्ररेखाविभूषितम् अर्धनारीनरम्प्राज्ञम् त्रिशूलादिसूजिह्नितम् जडाधरम् महाकायम् व्याख्रे भाजिनधारकम् सहस्रा जातमात्रेण रुदितम् शङ्करेण च तम् ब्रह्मा सान्त्वयामास किं रोदिषि वृषद्वच ब्रह्माणमवदद्बालस्थानं देहि पितः प्रभो नामानि सर्वे स कथय विस्तराद तं प्रत्युवाच धाता स रोदनाद्रुद्रसंनिधः शिवः सर्वसुखाद्धारस्त्वं जातोऽसि महेश्वर वरदानप्रभावेणाधुना सर्वेश्वरप्रभो साक्षात् शङ्करवेषेण पुत्रता मे समागतः पृथ्वीजलं तथा तेजो वायुराकाशमेव चन्द्रात् सूर्यो दीक्षितोष्ठौ तव स्थानानि अष्टूर्तिधर शर्व्य फलदायक तव ना देंश एक दशवर सृष्टिमहादेव ध्याम गजाननम तथे सृष्टिमे ध्या गणपतिद्रान्नाधान शंभु ससर्ज बहुतेजस अनन्तान् विविधाकारान् अमृतात्मप्रसारकान् तान् दृष्ट्वा ब्रह्मदेवोऽपि मा कुरुष्व जगत्पदे जन्म मृत्युयुतान् शम्भो सृजस्व विविधांस्तथा ततः शिवो विधातारमुवाचनसृजाम्यहम् जन्म मृत्युयुधान् देवेत्युक्त्वा तूष्णीं बभूवः तेन स्थाणुरिति प्रोक्तं नाम तस्य महात्मनः ऊर्ध्वरेतास्वयं शम्भुस्थितो गणपतिं भजन् ततो ब्रह्मा मुखेभ्यो वै वेदान् शास्त्रसमन्वितान् पुराणानि ससर्जासौ तानुवाच कृताञ्जलीन् सृजध्वं विविधां सृष्टिं तथेदि गणपं तथा तपसा तोषयामासुः ससृजुस्तद्वरैः प्रजाः कर्माणि विविधानीह ससृजुः परमादराद तानि दृष्ट्वा विधातासौ हर्षयुक्तो बभूवः ततो यज्ञं समारेभे ब्रह्म विष्णुमचिन्तयद पुत्रार्थं तं महाभागं सोऽपि तत्पुत्रतां गतः यज्ञा चतुर्भुजो देवो यज्ञरूपो जनार्दनः समुद्भूत स्वयं विष्णुस्तमुवाच आज्ञां देहि विधर्मां त्वं ततस्थं विधिरब्रवीद सृष्टिं कुरु गणेशत्वं तथा स्मृत्वा चकारसः यज्ञान् कर्मसमुद्भूतान्नससर्ज विविधान् हरिः नानाफलप्रदानपूर्णान् कल्पवृक्षानिव प्रभुः तान् दृष्ट्वा हर्षिदो ब्रह्म ततः स पुनः तस्य देहात् समुत्पन्ना पुत्रा दश महौजसः मरीचि भृगुरत्रिश्च पुलस्थ्यपुलः क्रदुः दक्षत्वमङ्गिराश्चैव वसिष्ठो नारदप्रभो नुवाच स्वयं ब्रह्मा सृजध्वं विविधाः प्रजाः ओमित्युक्त्वा ययुः सर्वे तपसेवनमुत्तमं ततो नारद आद्यन्तमुवाच पितरं मुनिः नाकं सृजामि देवेश भजामि गणनायकं मायामयं सर्वमिदं मिथ्याभूतं भ्रमात्मकम् श्याम्ये ज्ञादा तदर्थं यो मूर्खवन्नात्र संशयः तदस्थं पुनरप्याः सृजत्वं विविधाः प्रजाः अन्ते वयसि देवेशं गणेशं भजपुत्रक स ऊचे बोधयसि किमर्थं मां प्रजापदे मिढ्या भूतार्थमादौ कसृचदिभ्रान्तिसंयुगः ततस्तं सप्तवान् ब्रह्मा पतत्वं शूद्रयोनिदः गन्धर्वश्च तथाभावी नानास्त्री भोगकारकः ततस्तं नारदस्तादं शशापक्रोधसंयुगः अपूज्यो भवितासि वृद्धा शपसि मां यतः तदो नारदयेवासौ गत्वा तपसि संस्थितः गणेश्यन्तोषयामास मन्त्रेणैकाक्षरेण च दिव्यवर्षशदे पूर्णे तं ययौ गणपः वरं महाभाग दास्यामि मनसीप्सितं ततस्थं स्तुदवान् देवं गणेशं सर्वसिद्धिदं अवृणोच्च वरं चेदि शापं मे विनिवर्धय ततस्थं गणराजस ऊचिवान् भक्तवत्सलः पितृशापं कथं मिथ्या करोमि वदसाम्प्रदम् मया वरस्तथा दत्तो ब्रह्मणे तेन सत्यवाक् अतशृणु महाभागवचनं मे सदा गन्धर्वो भवितासित्वं त्वं वदामिते ज्ञानं वदामि ते सदा त्रिभित्समायुक्तं पुनस्त्वं शूद्रयोनौ च भविष्यसि तत्र संन्यासिभि सङ्गो भविष्यदि यदानख तेभ्यो ज्ञानं समासाद्य गमिष्यसि वनेषु च तत्र वैष्णवमार्गेषु त्वं संसक्तो भविष्यसि तदेकपतनाद्भावी पुनस्त्वं ब्रह्मणः सुतः नारदो नात्र सन्तेहस्तत्र शं भुं भजिष्यसि नारायणमुखात् तत्र मां ज्ञात्वा मत्प्रियो मुनि भविष्यसि च योगेन्द्रो गणपत्यो न संशयः युक्त्युक्त्वा गणनाधस्तं तत्रैवान्तरधीयता नारदस्थं नमस्कृत्य शापं भुक्त्वा दिवं गतः पुनः स नारदोजादशिवभक्तिपरायणः नारायणेन संज्ञप्तो गणपत्यो बभूवः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे ये, ये गदन्तचरिते नारदशापनिवर्तनं नाम द्वितीयोऽध्यायः ओम्